अथर्वेदे पञ्चमाष्टके द्वितीयोऽध्यायः ओषस्वनः समिदमग्ने अद्य शोचारहद्यजतन् धूम मृण्वन् उपस्पृश दिव्यंसानस्तोपैः संरश्मिभिस्ततरः सूर्यस्य न राशंसस्य महिमानमेषामुपस्तोषामयजतस्य जज्ञैः ये सुकृतवश्यु च योजि यन्धास्वदन्ति देवा उभया आनिहव्या हीळेन्यम् ओ असुरम् सुलक्षमन्तर्दूतम् रोदसी सत्यवाचम् मनुष्वदग्निम् मधुना समिद्धम् समध्वराजसदमिन्महेम सपर्यवो भरमाणा अभिज्ञु प्रवृञ्जते नमसा बर्हिरग्नौ आजुह्वानाकृतपृष्ठम् वृषद्वदद्धर्वो हविषामर्जयद्धम् स्वाध्यो ओ ओ ओ विदुरो देवयन्तोऽशिश्रयोरथयुर्देवता पूर्वी शिशुन्न मातराहाणे समग्रुभो न समनेष्पञ्जन् उत योषणे महीन उषासानक्ता सुदुःखे एव पुरुहूते मघोनि आ यज्ञयेषु विताय श्रयेताम् विप्रा आ यज्ञेषु मानुषेषु कारु मन्ये वाञ्जातवेदसायजध्यै ऊर्ध्वन्नो अध्वरम् कृतम् हवेषु ता देवेषु वनथो वार्याणि आभारती भारतीभिः सजोषा इळा सरस्वती सारस्वतीभिररुवाक्ति स्वो देवीर्बर्हितं सतम् तु कन्नस्थुरीपमथपोषयित्नु देव त्वष्टर्विरराणस्य स्व यतो अवीरः कर्मण्यः सुदक्षो अयुक्तग्रावाजायते देवकामः वनस्पतेवसृजोपदेवानग्निर्हविष्यमितासूदयाति सेतु होता सत्यतरोजाति जा यथा आदेवानाञ्जनिमा निवेद आयाश्च्यग्ने समिधानो अर्वा इन्द्रेण देवैः सरथम् तु रेभिः बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा आ देवा अमृताः मादयन्ता अग्निम्बो देवमग्निभिः सजोषायजिष्ठम् दूतमद्धरे यो मध्ये निध्रुविरृता वातपूर्वोर्धा कृतान्नः पापकः प्रोथत श्वो न यमसे विष्यन् यदा महः संवरणाद्भ्यस्तात् आदस्य वातो अनुवातिशोतिरतस्मते वृददम् कृष्णमस्ति उद्यस्य तेन वदातस्य कृष्णोऽग्नेतरम् चतरा इधानाः अच्छाद्यामरुषो धूमये एति सन्धूतो अग्न ईयसे हि देवान् वियस्यते पृथिव्याम् पाजो अश्रेतृषु यदन्नासमरक्तजम्भैः सेनेमसृष्टा प्रसितिष्ट एति यवन्नदस्मजुह्वाविवेक्षि रमिद्दोषातमुषसि यविष्ठमग्निमत्यन्नमर्जयन्त नराः निशिशा आतिथिमस्य योनौ दीदाय शोचिराहुतस्य कृष्णाः सुसन्दृक्तेऽस्वनेकप्रतीकम् वियदृक्मो न रोचस उपाके दिवोनते नते तन्यतुरेति सुष्मश्चित्रो न सूरः प्रतिचक्षिभानुम् यथा आ वस्वाहाग्नये दाशे एव परीडाःभिर्घृतवद्भिष्टहव्यैः ते तेभिर्नो अग्ने अमितैर्महोभिः शतम्भूर्भिरायसेभिर्निपा आहि या वा आ ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्न्रुवदेश्याः ताभिर्नः सूनो सहसो निपा निर्यत्पूते वस्वधितिश्वचिरिका कृपातन्वा रोचमानः आयो मारुरो ऋषेऽन्योजनिष्ठते वयज्याय सुक्रतुः पावकः एतानो अग्नेऽसौभगादिदेह्यभिक्रतुम् सुचेतसंवरेण विश्वा स्तोतृभ्यो गृणते च सन्तु योऽयम् वात स्वस्तिभिः सदा नः प्रवः भानवे भरद्भम् हव्यम् मतिम् चाग्नधे सु पूतम् यो दैव्यानि मानुषा जनूंश्यन्तर्विश्वानि विद्मनाधिगाति सवृत्सो अग्निस्तरुणश्चिदस्तु यतो जष्ठो अजनिष्ठमातुः संयोमना युवतेषु चिदन्धूरिचिदन्नासमिदत्ति सद्यः अस्य देवस्य संसज्जनी केयम् वर्ताः नियोग्रभं चेतम् च गृभ्रे निजो वृतम् पौरुषेयी मुवोच तुलोकमग्निरायवेशु एतावर्ते एष्वग्निरवृतो निधायि समानो अत्र चोरः सह आयो योनिन्देवकृतम् ससादक्रत्वा ह्या अग्निरमृता अदारीत तमोषधेश्च वलिनश्च गर्भम् भूमिश्च विश्वधायसं विभर्ति ईशे ह्या अग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य धातोः मात्वा वयम् सहसावन्नवी रामाप्सवः परिषदा ममाधुवः परिषद्यम् शरणस्य रेक्नो रायः पतयस्या वा न अग्ने अन्यजा आतमस्य च एता न स मा पथोऽपि दुःखः न हिग्रभाजारणः सुषेभोऽन्योदर् मनसामन्तवा उ अथा आचिदोकः पुनरित्स एत्या नो त्वमग्नेऽवनुष्यतो निपा आहि त्वमुनः सहसापन्नवद्यात् सन्त्वाद्भस्मन्वदभ्ये तुपाचः संव्रहिः स्पृहया यः सहस्रे एतानो अग्नेसौभगादिह्यपिक्रतुम् सुचेतसंवते म विश्वा स्कोतृभ्यो गृणते च सन्तु योजम् वातस्वस्तिभिः सदा नः ज्ञये एतमसे भरद्भङ्गिरम् दिवो अरतये एपृथिव्याः यो विश्वे एषा मृतानामुपस्थे एवैश्वानरो वा आवृतेजा आग्रवद्भीः पृष्टोऽविधायज्ञः पृथिव्या नेता सिन्धूनाम् वृषभस्तियानाम् समानुशीलभिविशो विभाति वैश्वानरो वा आवृधानो वरेण त्वद्भिया विश आयन्नसि घ्नेरसमनाजहतेर्भोजनानि वैश्वा आनरपूरवेशोऽशु जानः पुरो यदग्ने नरयन्नदीरेः तव त्रिता तु पृथिवी उदद्यौर्वैश्वा आनरौ व्रतमग्ने सचन्ता त्वम् भासा रोदसी आततन्थाजस्रेण त्वामग्ने हरितो वामसानागिरः स चन्तेथुनयो धृताची पतिङ्गृष्टीनाम् प्रथ्यम् रजीणाम् वैश्वानरमुषसाङ्केतुमन्नाम् त्वे असुर्या अम्बस गोन्द्रिरन्वन्धृम् हिरे मित्रमहो दुषन्तस्यो मोकसो अग्न आदपुरुज्योतिर्जनजन्नार्याय स जायमानः परमे व्यो ओमन्भाजुर्नपाथः परिपासि सद्यः त्वम्भुवनाचनयन्नरिक्रन्नपत्याय जातवेदो दशस्यन् तामग्ने अस्मे इष मेरयस्व वैश्वानरद्युमतीञ्जातवेदः यजाराधः पिन्वसि विश्ववादपृथुश्रवो दा दाशु शेमत्याय तन्नो अग्ने मगवद्भ्यः पुरुक्षुम् रजिन्निवाजम् श्रुत्यम् युवस्वैश्वानरमहिनः शर्म यच्छरुद्रेभिरग्ने वसुभिः सजोषाः प्रसंराजोऽसुरस्य प्रशस्तिम् पुंसः कृष्टीनामनुमाद्यस्य इन्द्रस्येव प्रभसस्कृतानि वन्दे दारुम् वन्दमानो विवक्मि कविङ्केतुम् धासिम् भानुमद्रेर् हिन्वन्ति सम्राज्यम् रोदस्यो पुरन्दरस्य गीर्भिराविवासे न व्रतानि भूर्या महानि न्यक्रतोन्घ्रतिनो रुध्रवाचः पणीङ्ग्रश्रद्धामवृदामयज्ञान् प्रदान्तस्योम् रग्निर्विवाज पूर्वश्चकारापरामयज्यून् यो अपाचीने तमसि मदन्ति प्राचीश्चकारमश्चेभिः तमीषानम्बस्वो अग्निङ्गृणीशेनानतम् रमयन्द्रमृतन्यो न यो देह्योऽमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार स निरुध्या न हुशो यः वो अग्निर्विशश्चक्रे परिहृदस्सहोऽभिः यस्य शर्मन्नुपविश्वे जनास एवै स्वस्थ सुमतिम् यक्षमाणाः वैश्वानरोपरमारोदस्योराग्निः ससादपित्रोरुपस्थम् आ देवोददे बुद्ध्या आवसूरि वैश्वानर उदिता सूर्यस्य आ समुद्रादपरादा परस्मादाद्यर्ददे दिव प्रभो देवञ्चित्सहसारमग्निमश्मन्नवाजिनम् हि से नमोभिः भवानो दूतो अध्वरस्य विद्वान्मनः देवेषु विविदेमि तद्रुः आयाह्यग्नेपथ्या आ आनुस्वा मन्द्रो देवानाम् सख्यञ्जुषाणः आसानुसुष्मैर्नदयन् पृथिव्याजम्बेभिर्विश्वमुषधग्मनानि प्राचीनो यज्ञः सुधितम् हि बर्हि प्रेणीते अग्निरीणितो न होता आ मातरा आविश्ववा रेहुमानो यतो यविष्ठजग्निषे सुषेवाः सद्यो अध्वरे रथिरञ्जनन्तमानुषासो विचेतसो य एषाम् विषामधायि विश्वनिर्दुरोणेग्निर्मन्द्रो मधुपचारतावा असा आदिकृतो बन्धिराजगङ्गानग्निर्ब्रह्मा निषदनेऽपि धर्ता योश्चयम् पृथिवेदा आवृथा ते आयम् होता यजति विश्ववा आरम् एते द्युम्नेभिर्विश्वमातिरन्तमन्त्रयेवारन्दर्या अतक्षन् प्रयेऽपि शस्थिरन्तश्लोषमाणा आयेमे ए अस्य दीधयम् धृतस्य त्वा मग्न एमहे वसिष्ठा ईशानम् सूनो सहसोऽवसूनाम् इशं स्तोतृभ्यो मघवद्भ्यः आनड्योऽयम् पात स्वस्तिभिः सदा नः इन्द्रे राजा समर्यो नमोभिर्यस्य प्रति एकमाहुतम् कृतेन नरो ओहं येऽभिरीणते स बाध आग्निरग्र उषसामशोचि अयमुष्यसुमहाङ्गवे विहोता मन्द्रो मनुषो जह्वो अग्निः विभाअकस्सृजानः पृथिव्याम् कृष्णपविरोषधीभिर्ववक्षे कया आ नो अग्ने विवशस्सु वृत्तिम् कामुस्वधामृणवश्यस्य मानः कदा भवेमपतयः सु तत्र राजो वन्तारोः दुष्टरस्य साधोः प्रायमग्निर्भरतस्य शृण्वेवि यत्सौर्यो न रोचते बृहद्धाः अभियः पूर्वम् बृतना नो दैव्यो अतिधिशुशोच असन्नित्वे आहवनानि भू रिभुवो विश्वेभिः सुमना अनीकैः स्तुतश्चिदग्ने शृण्विषे इदम् वचशतसा संसहस्रमुदग्नयेतिशेष्टद्विवरहाः संयत्स्तोतृभ्य आपये भवादिद्युमदमेवतनम् रक्षोहा नो त्वामग्न एम हेमसिष्ठा ईशानम् सोऽसहसोऽसूनाम् शिषम् इशं। स्तोतृभ्यो मघवद्भ्यः आनड्यूयम् पात स्वस्तिभिः सदा नः अपो ओधि उषसामुपस्थाद्धोताः मन्द्रः कपितमः पापकः दधा आतिकेतुमुभयस्य जन्तो रहव्या देवे शुद्रविणम् सुकृत्सु सशुक्लतुर्यो विदुरः पणीनाम् पुनानो अर्कम् पुरुभोजसन्नः होताः मन्द्रो विशान्दमो नास्तिरस्तमो ददृशे राम्याणाम् अमोरः कविरतिर्विवस्वाङ् सुसं मित्रो अतिथिः शिवो नाः चित्रभानुरुषसाम् भात्यग्रेपाङ्गर्भः प्रस्वाविवेश यीडेन्योः वो मनुषो युगेषु समनगा असु च जातवेदाः सुसन्दृशाः भानुनायो विभाति प्रतिगावः समिधानम् अग्ने याहि दूत्या अम्मारिषण्यो देवाच्छाः ब्रह्मकृताः गणेन सरस्वतीम् मरुतो अश्विनापो यक्षि देवान्रत्पथेयाज समिधानो वसिष्ठो समिधानोऽवसिष्ठोजरो संहन्यक्षिराजे पुरन्दिम् पुरुषीथा जातवेदोजरस्व यूयम् पात स्वस्तिभिः सदा नः उषो न दारः पृथुपाजो अश्रेद्दविद्युदद्येद्यच्छोषु जानः वृषाहरिश्रुतिराभातिभासाधियो हिन्वा न उशतीरजीगः स्वार्णवस्तो अग्निर्जन्मानि देव आविर्विद्वान् नवद्धूतो देहे भजापापनिष्ठः अच्छागिरोः पतयोः देभयन्ते रग्नीयम् निग्रविडम् दे भिक्षमाणाः सुसन्दृशम् सुप्रदेहिकम् स्वम् चम् मानुषाणाम् इन्द्रम् नो अग्ने वसुभिः सजोषाः रुद्रम् बृहन्तम् आदित्ये विश्वजन्यामृहस्पतिमृक्वभिर्विश्ववारम् मन्द्रम् होतारमुषिधो जविष्ठमग्निम् विष ईणते अध्वरेषु स हि क्षपा आपाम् अभवद्रयीणामतन्द्रो दूतो यजथाय देवाः महान् अस्यध्वरस्य प्रकेतो न ऋते आविश्वे एभिः सरथीयाहि देवैर्न्यज्ञे होता प्रथमः स देह त्वा नीणते अधिरन्दोत्याय हविष्वन्तः समिन्मानुषासह यस्य देवैरासदो बर्हिरग्नेहान्यस्मै सुदिना भवन्ति त्रिश्चिदक्तोः प्रचितुर्वसो नित्वे अन्तर्दाशुषे मर्त्याय अनुष्पदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्ति पावा अग्निरेषे विहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य क्रतुम् ह्यस्य वसवो जुषन्ताछादेवादधिरेहव्यवाहम् आग्ने एवहविरज्याय देवानिन्द्रज्ज्येष्ठा देवा स इह माहादयन्ताम् इमञ यज्ञेषु धेहि यूयम् पात स्वस्तिभिः सदा नः अगन्महानमसायविष्ठञ्यो दीताय समिद्धस्वे दुरोडे चित्रभानु रोदसे अन्तरुर्वे स्वाहुतम् विश्वतः प्रत्यञ्चम् स मह्ना विश्वादुरितानि साह्वानग्निष्टभेदमहाजातवेदाः स नो रक्षिषद्दुरितादवद्यादस्मान् गृणत उत नो मघो नाः त्वम् वरुण उत मित्रो अग्नेताम् वर्धन्ति मतिभिर्वसिष्ठाः त्वेव सुषणानि सन्तु यूयम् पात स्वस्तिभिः सदा नः प्राग्न विश्वसु चेति यन्धे सुरघ्ने मन्मधीतिम्भरध्वम् रेहविर्न बर्हिषि प्रीणादो वैश्वानराजयत जेमतीना त्वमग्ने शोचिशाशोऽशुचा न आरोदसी अवृणाजायमानः त्वम् देवाम् अभिशस्तेरमुञ्चो वैश्वानरजातवेदो महित्वा जातो यदग्ने भुवनाव्यक्षः पशून्न गोपा इर्यः परिज्ञमा इश्वा नरब्रह्मणे विन्दघातुम् योऽयम् पात स्वस्तिभिः देवाय देवभूतिभिः हविर्भिः शुक्रशोचिषे नमस्विनो वयन्दाः क्षेमाग्नये वयन्ते अग्ने समिधाः विधेम वयन्दाः क्षेम सुष्टुति वयम् कृते नाध्वरस्य होतर्वयम् देवहविषा भद्रशोचे आनो देवेभिरुपदेवहोतिमग्ने यायवषट्कृतिञ्जुषाणः तुभ्यम् देवायदाश तस्यामजूयम्पातस्वस्तिभिः सदा नः उपसद्यायमीषुष आस्ये जुहुदाहविः यो नो नेदिष्ठमाप्यम् यः पञ्चचर्षणीरभिनिशसा ददमे दमे कविर्गृहपतिर्युवाः स नो वेदो अमात्यमग्निरक्षतु विश्वताः उतास्मान्पात्वम् हसः न वन्वस्तोमममग्नये दिवश्येनायदीदनम् वस्वः कुविद्वनातिनः स्मारः यस्य श्रियो दृशे यथा अग्रे यज्ञस्य शोचतः स्ये माम् वेतुमषट्कृतिमग्निर्द्विषतरोगिराः यजिष्ठोऽहं व्यवाहनः नित्वा नक्ष्यविष्पते द्युमन्तम् देवधीमहि सुवीरमग्न आहुता क्षप उस्रश्च दीतिः स्वग्नयस्तया भयम् सुवीरस्तमस्मयुः उपत्ता सातयेनरो विप्राः सोयन्ति धीतिभिः उपाक्षरासहस्री अग्नेरक्षांसि सेधति शुक्रशो चिरमर्त्यः सुजिः पावक ईड्याः स धो राधांस्याभरेशानः सहसोजो भगश्च दातुवार्यम् त्वमग्ने वीरवर्जशो देवश्च सविता भगाः दिदिश्च दादिवार्यम् अग्ने रक्षाडो अह्मसः तपिष्ठैरजरोदः अधा महिना यस्य दृष्टो दृष्टोरपीतले पूर्भवाशतभुजिः त्वन्नः पाह्यम् हसो दोषावस्तरघायतः दिवा नक्तमदाभ्य एनावो अग्निर्नमसोर्जो न पातमाहुवे प्रियम् चेतिष्ठमलतिम् स्वद्भरम् विश्वस्य दूतममृतम् स अरुषा विश्वभोजसा स रुद्रवत्स्वाहुतः सुब्रह्मा यज्ञः सुषमेव सूनाम् देवम् राधो जनानाम् उदस्य शोचिरस्थादा जुह्वानस्य मेर्घुषाः उद्धूमासो अरुषासोदिविस्पृशः समग्निमिन्धते नराः तन्ता दूतम् विश्वा आसू नो सहसोमर्तभोजनारा स्वदद्यत्वे महे त्वमग्ने गृहपतिस्तम् होताः नो अध्वरे त्वम् भोताः विश्ववारप्रचताय शिवेशि च वार्यम् कृतिरत्नै यजमानाय सुक्रतो हि रत्नधा असि आनहृते शिशीः विश्वमृत्विजम् सुशंसो यश्च ते अग्ने स्वाहुतप्रियासः सन्तु सूरयाः यन्ता रोजे मघवाः नो जनाः नापूर्वान्दयन्तगो ना येषामिलाः घृतहस्तादुरोण आप्राता निषीरति तां स्त्रायस्वसहस्य द्रुहो निदो यच्छाः च जिह्वनिरासा विदुष्टरः अग्ने रयिम् मघवद्भ्यो न आवहव्यदाचिम् च सूदय ये राधा अंसि कामे न श्रवसो महः ता अम्हसः पिप्रहिभर्त्रभिष्टम् शतम् भूर्भिर्यविष्ट उद्वासिञ्चधौपवापृणध्वमालिब्दो देव ओहते तम् होतारमध्वरस्य अग्ने भव सुमिधा समिद्ध उत बर्हिर्विया विस्तृणीता उत द्वार उशतीर्विश्रयन्तामुत देवाम् उशत आवहेह अग्ने एवेहिक्षि देवान् स्वद्भरा कृणुहि दातवेदः दा। स्वध्वरा करति दातवे एतायक्षद्देवामृतान् दा विप्रयच्छ त्वम् स्वविश्वार्याणि प्रचेतः सत्या भवन्त्वाशिशो नो अद्य त्वामुते रेहव्यवाहन् देवासो अग्न ऊर्ज आनपातम् ते ते एवायताश तस्यामहो नो रत्ना विदध इयानः त्वे हयत्पितरश्चिन्न इन्द्रविश्वाय रितारो असन्वन् त्वे गावः सुदुघास्पे वनिष्ठः राजे बहिजनिभिःक्षे श्येवावद्युभिरभिविदुष्कभिः सन् पिशागिरो मघमन्द्रोभिरश्वैः स्वायतशिशीः राजे अस्मान् इमा उत्त्वापस्पृधानासो अत्र मन्द्रागिरो दे वयन्तेरुपस्थुः अर्वाजी एते पर्थ्या राज सुमताविन्द्रशर्मन् धेनुर्लत्वा सूयवसेतुदुःखन् नुपब्रह्माणि सकृते वसिष्ठः स्वामिन्वेकोपतिम् विश्व आहार इन्द्रः सुमतीम् कल्पच्छा अर्णाहंसिजित्पप्रधाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा शर्धन्तम् शिम्युमुचतस्य नम् सिन्धो नाम ोळायितुर्वशो यक्षुरासे द्राजे मत्स्यासो निशिता अपि एव सृष्टिञ्चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषोचोः आपक्थासोऽसोऽभन्तानि नासोऽपिषाणिनः शिवासाः आयो न यत्सधमा आर्यस्य गम्यातृत्सुभ्यो अजगन् युधा नून् ो अदितिं श्रेवयन्तो चेतसो विजगृभ्रे परुष्णीम् मह्नाविम् यक्पृथिवीम् पत्यमानः पशुः कविदशयच्चायमानः गीयुरर्थम् नन्यर्थम् परुष्णीमाशुश्च नेदभि वित्पञ्जगाम सुदास इन्द्रः सुतुकाङ्गमित्रानरन्धयन्मानुषेवध्रिवाचः ये युर्गा गोनयवसादगोपायथा कृतमभिमित्रम् चितासाः पृश्निगावः पृश्निप्रेषिता ससृष्टिञ्चक्रुर्नियुतोरन्तयश्च एकम् चयोविंशतिम् च श्रवस्या वैः कर्णयोर्जनान्द्राजान्यस्ताः दस्पो न सद्मनिषिशादिबर्हिष्योरः सर्गमकृणोदिन्द्र एषाम् अधः श्रुतम् रटाना अत्र सख्याय सख्यम् पायन्तो ये अमतन्मनुत्वा विसद्यो विश्वा दृम्भिधान्ये एषामिन्द्रः पुरः सहसा सप्तदर्दः ज्ञानवस्य दृत्सेगम् भार्देश्म पूर्वम् विदधे वृद्रवाचम् निगम्यवो नवो द्रुह्यवश्च षष्टिः शतासुषु पुष्षट्सहस्राः षष्टिर्वीरासो अतिषर्दुभोजुविश्वेदिन्द्रस्य इन्द्रे नैते तृत्स वोपे आपो न सृष्टा अधवन्तनीचीः दुर्मित्रा सह प्रकलविन्मिमाना जहुर्विश्वा निभोजना सुदासेः अर्धम् वेरस्य श्रुतपामनिन्द्रम् पराशर्धं तन्ननुदे अभिक्षा इन्द्रो मन्युम् अन्युन्योऽमिमाय भेदे पथो वर्तनीम् पत्यमानः आद्रेण चित्तद्वेकम् चकारसिंह्यञ्चित्पेत्ते नाजघान अपस्रक्तिर्वेश्याविष्टरिन्द्रः प्रायच्छद्विश्वा भोजना सुदासेः शश्वन्तो हि शत्रहोरा रथुष्टेः भेदस्य चिच्छर्धतो विन्दरन्धिम् मर्ता केनस्तु कृणोति दिग्मन्तस्मिन् वज्रमिन्द्र आ पलीन्द्रञ यमुनातृत्सवश्च प्रात्रभेदम् सर्वथा तामुषायत् अजासश्च शीघ्रभोजक्षवश्च परिम् शीर्षाणि जभृदस्यानि नत इन्द्रसु मतयो नरायः सञ्चक्षे पूर्वाः उषसो ननोत्नाः प्रये प्रजे गृहारमधुष्पायापराशरश्रतजाः तुर्वसिष्ठः न ते भोजस्य सख्यम् वृषन्ताधाः सूरिभ्यः सुरिभाव्युच्छान् देनर्देववतश्च ते गोर्द्वारथाः वधोमन्तासुदासाः अर्हन्नग्नेपैजभनस्य दानम् होते वसद् न पर्ये विरेभन् चत्वारो मा पैजवनस्य दानास्मद्दिष्टयः कृशनिनो निरेके रुद्रासो माष्ठाः सुदासस्तोकन्तोकायश्रवसे वहन्ति यस्य श्रवो रोदसी अन्तरूपे श्रीकृष्णे श्रीर्ष्णे विभाजा विभक्ता सप्ते दिन्द्रन्नश्रवतो गृणन्ति नियुध्या मधिमशिषादभीके इमं नरो मरुतस्य तानुदिवो ओदासन्न पितरम् सुदासाः अपिष्टनापैजपरस्य केतम् दोडासम् चक्रमदरम् दुभोजो यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टेश्चावयति प्रविश्वाः यः शश्वतो म् हत्य इन्द्रकुत्समावशुश्रूषमाणस्तन्वासवर्ये दासम् यच्छुष्णम् कुज वन्यस्मा अरन्धय अर्जुने याय शिक्षन् त्वम् धृष्णो धृषतावीतौ यम् प्रापो विश्वाभिरूतिभिः सुदासम् पन्द्रभिर्नमणो देव भीतौ भूरेणि वृत्राहर्यश्वहंसिरस्य निञ्चास्वापयोदभीतये सुहन्तु तव चौत्नानि वज्रहस्तदा निनवयत्पुरो नवतिम् च सद्यः निवेशने शतमाविवेशीरहम् च वृत्रन्नमुचिमुदाहन् स नातात इन्द्रभोजनानि रातहौयाय सा सुषे सुदासेः कृष्णे एते हरे वृषणायुन ज्ञव्यन्तु ब्रह्माणि पुरुषाकवायुम् मा ते अस्याम् सहसा वन्परिष्टावखाय भूम हरिवः परादैत्रायस्वनो वृकेऽभिर्वरोधैस्तव प्रियासः सूरिषु स्याम प्रियासहिते मघवन्नभिष्टौ नरोमदेमशरणे सखायः नितुर्वशन्नियाद्वम् सद्यश्चिन्नुते मघवन्नभिष्टौ नरः शंसन्त्युक्थशा स उक्था एते हवेः विर्विपणीङ्ग्रदाशन्नस्मान्वृणेष्वयुज्या यतस्मै एते स्तोमा नरा नृतमतुभ्यमस्मद्यम् चोदतो मघानि तेषामिन्द्रवृत्रहत्ये शिवो भोःसखा च शूरो नो इन्द्रशोरस्तवमान ऊते ब्रह्मजोतस्तन्वा वावृधस्व उप नो वाजाह्निवेह्युपस्तेऽन्योऽयम् वा तस्वस्तिभिः सदा नः इति पञ्चमाष्टके द्वितीयोऽध्यायः